अथ तद्वचसत्यमक्लीवं सर्गः तद्वचः सत्यमक्लीबम् सारणेनाभिभाषितम् निशम्य रावणो राजा प्रत्यभाषतसारणम् यदि मामभियुञ्जीरम् देवगन्धर्वदानवाः नैव सीतामहम् सर्वलोकभयादपि त्वम् तु सौम्यपरित्रस्तो हरिभिः प्रतिप्रदानमद्यैव सीतायाः साधुमन्यसे मन्यसे को हि इत्युक्त्वा परुषम् वाक्यम् रावणो राक्षसाधिपः आरुरोहततः श्रीमान् प्रासादम् हिमपाण्डुरम् बहुतालसमुत्सेधम् रावणोऽथ दिदृक्षया ताभ्याम् सहितो रावणः क्रोधमूर्च्छितः पश्यमाणः समुद्रन्तम् पर्वताम् शवनानि च ददर्श पृथिवी देशम् सुसम्पूर्णम् प्लवङ्गमैः तदपारमसह्यम् च वानराणाम् महाबलम् आलोक्य रावणो राजा परिपप्रच्छसारणम् येषाम् के वानरा मुख्याः के केषाम् शृणोति सुग्रीवः के वा यूथप यूथपाः सारणा चक्ष्मे सर्वम् किम् प्रभावाः प्लवङ्गमाः सारणो राक्षसेन्द्रस्य वचनम् परिपृच्छतः आबभाषेऽथ मुख्यज्ञो मुख्यांस्तत्र वनौकसः एष योभिमुखोऽलङ्काम् नर्दम् स्तिष्ठति वा नरः यूथपानाम् सहस्राणाम् शतेन परिवारितः यस्य घोषेण महता स प्राकारा सतोरणा लङ्का प्रतिहता सर्वा सशैलवनकानना सर्वशाखा मृगेन्द्रस्य सुग्रीवस्य महात्मनः बलाग्रे तिष्ठते वीरो नीलो नामैषयूथपः बाहू प्रगृह्य यः पद्भ्याम् महीम् गच्छति वीर्यवान् लङ्कामभिमुखः कोपादभीक्ष्णम् च विजृम्भते गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसन्निभः स्फोटयत्यति संरब्धो लाङ्गूलम् च पुनः पुनः यस्य लाङ्गूलशब्देन स्वनन्ति प्रतिशोधश एष वानरराजेन सुग्रीवेणाभिषेचितः युवराजोऽङ्गदो नाम त्वामाह्वयति संयुगे बालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा एतस्य सा मतिः जनकात्मजा हनोमता वेगवता राघवस्य हितैषिणा बहोनि वानरेन्द्राणा वेष यूथा निवीर्यवान् परिगृह्याभियाति त्वाम् स्वेनानीकेन मर्जितुम् अनुवालिसु वीरस्तिष्ठति संग्रामे सेतु हेतुरयम् नलः ये तु विष्टभ्यगात्राणि क्ष्वेडयन्ति नदन्ति च उत्थाय च एते दुष्प्रसहाघोराश्चण्डाश्चण्डपराक्रमाः अष्टौ एषैवाशंसतेऽलङ्काम् स्वेनानीकेन मर्दितुम् श्वेतोरजतसङ्काशश्च पलो भीमविक्रमः बुद्धिमान् वानरः शूरस्त्रिषु लोकेषु विश्रुतः तूर्णम् सुग्रीवमागम्य पुनर्गच्छति वा नरः विभजन् वानरीम् सेनामनीकानि प्रहर्षयन् यः पुरा गोमतीरे रम्यम् नाम्ना सम्रोचनो नाम नाना नगयुतो गिरिः तत्र राज्यम् प्रशास्त्येष कुमुदो नाम यूथपः योऽसौ शतसहस्राणि सहर्षम् परिकर्षति यस्य बाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः ताम्राः पीताः प्रकीर्णाघोरदर्शनाः अदीनो एषोऽप्याशंसतेऽलङ्काम् स्वेनानीकेन मर्दितुम् यस्वेष सिंहसङ्काशः कपिलो दीर्घकेसरः निभृतः प्रेक्षतेलङ्काम् दिधक्षन्निव चक्षुषा विन्ध्यम् कृष्णगिरिम् सह्यम् पर्वतम् च सुदर्शनम् राजम् सततमध्यास्ते सरम्भो नामयूथपः शतम् शतसहस्राणाम् त्रिंशच्च हरिपुङ्गवाः यं याम् तम् बाणराघोराश्चण्डाश्चण्डपराक्रमाः परिवार्यानुगच्छन्ति लङ्काम् मर्दितुमोजसा यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः न संविजते मृत्योर्न च सेनाम् प्रधावति प्रकम्पते च रोषेण तिर्यच्च पुनरीक्षते पश्यलाङ्गूलविक्षेपम् क्ष्वेडत्येष महाबलः महाजवो वीतभयो रम्यम् साल्वेयपर्वतम् राजम् सततमध्यास्ते शरभो नाम यूथपः सर्वे विहारा नाम यूथपाः राजन्शत सहस्राणि चत्वारिंशत्तथैव च मध्ये वानरवीराणाम् सुराणामिव वासवः भेरीणामिव सन्नादो यस्यैष श्रूयते महान् घोषः शाखा मृगेन्द्राणाम् सङ्ग्राममभिकाङ्क्षताम् एष पर्वतमध्यास्ते युद्धे दुष्प्रसहो नित्यम् पनसो नाम येनम् शतसहस्राणाम् शतार्धं पर्युपासते यूथपायूथपः श्रेष्ठम् येषाम् यूथानि भागशः यस्तु भीमाम् प्रवल्गन्तीम् चमूम् तिष्ठति शोभयन् स्थिताम् तीरे समुद्रस्य द्वितीय सागरः एष विनतो नाम यूथपः पिबंश्चरति योवेणाम् नदीनामुत्तमाम् षष्टिः शतसहस्राणि बलमस्य प्लवङ्गमाः त्वामाह्वयति युद्धाय क्रोधनो नाम वानरः यथा यूथानि यस्तु गैरिकवर्णाभम् वपुः अवमत्य सदा सर्वान् वानरान् बलदर्पितः गवयो नाम क्रोधादभिवर्तते येनम् शतसहस्राणि सप्ततिः पर्युपासते एषैवाशंसते लङ्काम् स्वेनानीकेन मर्दितुम् एते दुष्प्रसहा वीरा येषाम् सङ्ख्या न विद्यते यूथपायूथपः श्रेष्ठास्तेषाम् यूथानि यूथा भागशः इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षड्विंशः